Thank you. चक्र गदा हस्ते महालक्ष्मी नमोस्तु ते नमस्ते गरारूढ़ सुरभयंकरी सर्व हरे दें महालक्ष्मी नमोस्तु तेज्ञवरदे सर्वदुष्टभयङ्करे सर्वदुःखहरे देवी महालक्ष्मी नमोऽस्तु ते सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनी मन्त्रमूर्ते सदा देवी महालक्ष्मी नमोस्तुते आद्यन्तरहिते देवी आदिशक्ति महेश्वरी योगजे योगसम्भूते महालक्ष्मी नमोऽस्तु ते स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे महाभा पद्मासनस्तिते देवी परब्रह्मस्वरूपिणि परमेशी जगन्मातः महालक्ष्मी नमोस्तुते ते लक्ष्मी नमोऽस्तु ते महालक्ष्मी अष्टकस्तोत्रं यः पठेद् भक्तिमान्नरः सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा एककालं पटेन् नित्यम् पविनाशनं द्विकालं यः पटे नित्यं धनधान्यसमन्वितः त्रिकालं यः पटे नित्यं माशत्रुविनाशनं महालक्ष्मी नित्यं प्रसन्ना subha ati माला गला दृशोक महोत्पल सीय दिशंभ विश्वा मुरविद्विषोऽपि ईषन्निषीदतु मयि क्षणमीक्षणार्धम् इन्दिर सहो jangashayaangana कटक्षमाला <laughs> कल तु समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनाया प्राप्तं पदं प्रथमतः खलु यत्प्रभावात् मंगल्यभाजी मधुमाथिनी मैया मकरालय मंदमकया दद्यादया मु अस्मिन्न किञ्चन विहङ्गशिशौ विषण्णे दुष्कर्मधर्ममपनीय चिराय दूरं ना शिष्टमतयो दयार्द्रिविष्टपदुलि प्रकृष्ट कमलो दरीप्तिरिष्ट गरुडध्वज सुन्दरीति साकम्बरीति शशिशेखरवल्लभेति सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै शुभकर्मफलप्रसूत्य रत्यै नमोऽस्तु रमणीयगुणानवायै शक्त्यै नमोऽस्तु शतपत्रनिकेतनाय पुष्ट्यै नमोस्तु पुरुषोत्तमवल्लभायै नमोस्तु नालीक निभाननाय नमो नमोस्तु देव्यै भृगुनन्दनायै नमोस्तु विष्णुरुरसिस्थितायै नमोस्तु लक्ष्मीकमला जवल्लभाय सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राजदा शुकगदमाल्यशोभे भगवती हरि वल्लभे मनोभि त्रिभुवनभूतिकरि प्रसीदमह्यम् यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः सन्तुनोति वचनाङ्ग मुरारी मुरारि हृदयेश्वर्यं भजे दिग्धस्तिभिः कनककुम्भमुकावसृष्ट वाहिनी विमलचारु जलालुतांगी प्रातर्नमी जगता जननीम शेष लोकाधिना गृहिणीतापुत्री कमले कमलाक्षल्लभे ुनापू रङ्गैः <tarengi> आवालो मातरं रमा गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुविभुधभावे तशयः कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता काचन विहरति करुणा काश्मीरस्तबक कोमलाङ्गलता कञ्चन काञ्चीनिलयं करधृतकोदण्डबाणश्रिणिपाशम् कठिनस्तनभरनम्रम् कैवल्यानन्द कन्दमवलम्बेः चिन्तितफलपरिपोषण चिन्तामणिरेव काञ्चिनिलयामे चिरतरसुचरितसुलभा चित्तम् शिशिरयतु चित्सुधाधाराः कुटिलगजम् कठिनकुचम् कुन्दस्मितकान्तिकुङ्कुमच्छायम् कुरुते विहृतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन काञ्चीसीम्निकुमारी काचन मोहयति कामजेतारम् परया काञ्चीपुरया पर्वतपर्याय पीनकुचभरया परतन्त्रा वयमनजा पङ्कजसब्रह्मचारी लोचनयाः ऐश्वर्यमिन्दुमौळे रैकात्म्यप्रकृति काञ्चिमध्यगतम् ऐन्दव किशोरशेखरम् ऐदम्पर्यम् च कास्ति निगमानं शितकम्पा सीमानम् शिथिलितपरमशिव धैर्यमहिमानं कलये पाटलिमानम् कञ्चन कञ्चुकितभुवन भूमानम् आदृत काञ्चीनिलयाम् आद्यामारूढयौवनाटोपाम् आगमवतं सकलिकाम् आनन्दाद्वैत कन्दलिम् वन्दे तुङ्गाभिरामकुचभर शृङ्गारितमाश्रयामि काञ्चिगतम् गङ्गाधरपरतन्त्रं शृङ्गाराद्वैतन्त्रसिद्धान्तम् काञ्चीरत्नविभूषां कामपि कन्दर्पसूतिकापाङ्गी परमां कलामुपासे परशिव वामाङ्कपीठिकासीना कम्पातीरचराणाम् करुणा कोरखितदृष्टिपातानां केलीवनं मनो मे केषाञ्चिद्भवतु चिद्विलासानाम् आम्रतरुमूलवसतेः आदिमपुरुषस्य नयनपीयूषम् आरब्धयौवनोत्सवम् आम्नायरहस्यम् अन्तरवलम्बेः अङ्कितशङ्करदेहाम् अङ्कुरितो रज कङ्कणाश्लेषैः अधिकाञ्ची नित्यतरुणीम् अद्राक्षम् काञ्चिदद्भुताम् बाला मधुरधनुषा महीधरजनुषा नन्दामि सुरभिबाणजुषाः चिद्वपुषा काञ्चीपुरे केलिजुषा बन्धुजीवकान्तिमुषाः मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन मध्ये काञ्चीमनो मे मनसि जसाम्राज्य गर्वबीजेन धरणिमयीं तरणिमयीं गगनदहन होतृमयीम् अम्बुमयीम् इन्दुमयीम् अम्बाम् अनुकम्पादि मामीक्षे लीलस्तिदिमुनिहृदये धानस्तिमिदम् तपस्त्यदुपकम्पम् पीनस्तनभरमीडे ईश्वरमुवाच शतनाम प्रवक्ष्यामि शृणुष्व कमलानने यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती सती साध्वी भवप्रीता भवानी भवमोचनी आर्यादुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी पिनाकधारिणी चित्रा चण्डघण्टा महातपाह मनोबुद्धिरहङ्कारा चित्तरूपा चिता चितिः सर्वमन्त्रमयी सत्ता सत्यानन्दस्वरूपिणी अनन्ता भाविनी भव्या भव्या भव्या सदा गतिः शाम्भवी देवमाता चिन्ता रत्नप्रिया सदा सर्व सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी अपर्णा अनेकवर्णा च पाटला पाटलावती पट्टाम्बरपरिधाना कलमञ्जीरञ्जिनी अमेयविक्रमाक्रूरा सुन्दरी सुरसुन्दरी वनदुर्गा च मतङ्गमुनिपूजित ब्राह्मी माहेश्वरी च ऐन्द्री कौमारी वैष्णवी तथा चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषकृतिः विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा बहुला बहुलप्रेमा सर्ववाहनवाहना निशुम्भशुम्भहननी महिषासुरमर्दिनी मधुकैटवहन्त्री च चण्डमुण्डविनाशिनी सर्वासुरविनाशा च सर्वदा अवघातिनी सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा अनेकशस्त्रहस्ता अनेकास्त्रस्य धारिणी कुमारी चैककन्या कैशोरी युवतीयतिः प्रौढा चैव प्रौढा वृद्धमाता बलप्रदा महोदरी मुक्तकेशी घोररूपा महाबला अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी नारायणी भद्रकाली विष्णुमाया विष्णुमायाजलोदरी शिवदूतीकराळी च अनन्ता परमेश्वरी कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकं न असाध्यं विद्यते देवी त्रिषु लोकेषु पार्वतीं धनं धान्यं सुतं जायां हयं हस्तिनमेव चतुर्वर्गं तथा च अन्ते लभेन्मुक्तिं च शाश्वतीं कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीं पूजयेत परया भक्त्या पूजे पर भक्त पठेन्नामशाष्टक तिर्भवी सर्वरूद यानी राज्यश्रियमवाप्नुयात गोरोचना आलक्तक आलक्तुंकुमें सिन्दूरकर्पूरमधुत्रयेण विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् धारयते पुरारिः भौमावास्यानिषामग्रे चन्द्रे शतभिषां गते विलिख्य प्रपठेत् स्तोत्रं स सम्पदां पदं विलिख्य प्रपठेत् स्तोत्रं स भवेत् सम्पदां पदम् इति श्रीविश्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् वन्दे वाराघवक्त्राम्बरमणिमकुटाम् विभ्रुमश्रोत्रभूषा हाराग्रैवेयतुङ्गस्तनभरनमिताम् पीतकौशेय वस्त्रा देवीम् दक्षोर्ध्वहस्ते मुसलमथ परम् लाङ्गलम् माभ्याम् धारयन्तीं कुवलय कलिताम् श्यामलाम् सुप्रसन्ना ऐं क्लौ ऐ नमो भगवति वार्ताली वार्ताली वाराहि वाराहि वराहमुखी वराहमुखी अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्वदुष्टप्रदुष्टानाम् सर्वेषाम् सर्ववाक् चित्तचक्षुर्मुखगति जिह्वा स्तम्भनम् कुरु कुरु श्रीघ्रम् वश्यम् कुरु कुरु ऐं ग्लौं टह टह टह हुं फट् स्वाहा महावाराह्यम्बा श्रीपादुकाम् पूजयामि नमः ्यै विद्महे दण्डनाथायै धीमहि तन्नग्निप्रचोदयात् वन्दे वाराधवक््राम्बरमणिमकुटाम् विद्रुमश्रोत्रभूषाम् हाराग्रैवेय तुङ्गस्तनभरनमिताम् पीतकौशेय वस्त्रा देवीम् दक्षोर्ध्वहस्ते मुसलमथ परम् लाङ्गलम् वा कपालम् वामाभ्याम् धारयन्तीम् कुवलय कलिताम् श्यामदाम् ऐं ऐ नमो भगवति वार्ताली वार्ताली वाराहि वाराहि वराहमुखि वराहमुखी वराह अंधे अन्धिनि नमः वृन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्वदुष्टप्रदुष्टानाम् सर्वेषाम् सर्ववाक्चित्तचक्षुर्मुखगति जिह्वा स्तम्भनम् कुरु कुरु शीघ्रम् अवश्यम् कुरु कुरु ऐ ट हट हठः उं पट् महावाराह्यम्बा श्रीपादुकाम् पूजयामि नमः राजितायै विद्महे प्रत्यङ्गिरायै धीमहि तन्नो मुग्रा प्रचोदयात् ओ प्रत्यङ्गिरायै विद्महे शत्रुलिषूदिन्यै धीमहि तन्नो देवी प्रचोदयात् ओ अस्य श्रीप्रत्यङ्गिरासहस्रनाममहामन्त्रस्य भैरवर्षिः अनुष्टुप्छन्दः श्रीप्रत्यङ्गिरा देवता ह्रीं बीजम् श्रीं शक्तिः स्वाहाकीलकम् विद्यासिद्ध्यर्थे जपे विनियोगः ध्यालम् देवी प्रत्यङ्गिरा सेव्या शिरसा शशिशेखरा सममासाधर्मिणी च समस्तसुरसे मुषी अपराधितायै विद्महे प्रत्यङ्गिराय धीमहि तन्नो मुग्रा प्रचोदयात् ओ प्रत्यङ्गिरायै विद्महे शत्रुनिषूदिन्यै धीमहि तन्नो देवी प्रचोदयात् ओ अस्य श्रीप्रत्यङ्गिरासहस्रनाम महामन्त्रस्य भैरवर्षिः अनुष्टुप्छन्दः श्रीप्रत्यङ्गिरा देवता ह्रीं बीजम् श्रीं शक्तिः स्वाहाकीलकम् विद्यासिद्ध्यर्थे जपे विनियोगः ध्यानम् देवी प्रत्यङ्गिरा सेव्या शिरसा शशिशेखरा सममासाधर्मिणी च समस्तसुरसे मुषी नानाकरशङ्गे नमः He is referred to as not My shoes. नाफरशि शानालयामुक्तकेशी महाकालकामाकुलाकालिकेयम् भुजे वामयुग्मे शिरोसी दधाना परम् दक्षयुग्मे भयं वै तथैव सुमध्यापि तुङ्गतनाभारणम्रालसद्रक्तृक्कया सुस्मिता स्या शवद्वन्द्वकर्णावतं सा सुकेशीलसत्प्रेतपाणि प्रयुक्तैरची शवाकारमञ्चाधिरूढाशिवाभिश्चतुर्दृशु शब्दायमानाभिरेजेच्यादिरेवात्रयस्त्रे गुणे समाराध्यकाली प्रधाना अनादिं पुरादिं मखादिं भवादिं स्वरूपं त्वदीयं न विन्दन्ति देवाः जगन्मोहनीयं वाग्वादिनीयं सुहृद्योषिणि शत्रुसंहारणीयम् वचसंहनीयं किमुच्चाटनीयं स्वरूपं त्वदीयं न देवाः इयं स्वर्गदात्री पुनः खल्पवल्ली कामा यथार्थं प्रकुर्यात् लखाते कृतार्था, भवन्तीति नित्यं स्वरूपं त्वदीयं न विन्दन्ति देवाः सुरापालमत्ते सुभक्तानुरक्ते लसत्पूतचित्ते सदाविर्भवस्ते जगद्यालपूजा सुधादौ तपङ्का स्वरूपं त्वदीयं न विन्दन्तिदेवाः चिदानन्द्रगन्दम् हसन्मन्दमन्दं शरच्चन्द्रकोटिलप्रभापुञ्जबिम्बम् मुनीनां कवीनां हृदि द्योतमानं स्वरूपं त्वदीयं न विन्दन्ति देवाः महामेघकाली सुरक्तापि शुभ्रा कदाचिद् विचिन्द्रा कृतिर्योगमाया न बाला न वृद्धा न कामातुरापि स्वरूपम् त्वदीयं न विन्दन्ति देवाः क्षमस्वापराधम् महागुप्तभावम् मया लोकमध्ये प्रकाशीकृतं यत् तव ध्यानभूतेन चापल्यभावा स्वरूपं त्वदीयं न विन्दन्ति देवाः यदि ध्यानयुक्तः पठेद्यो मनुष्यस्तदा सर्वलोके विशालो भवे च गृहे चाश्लतिर्मृते चापि मुक्ते स्वरूपं त्वदीयं न विन्दन्ति देवाः swarupam tvadiyam na vindanti devaah swarupam tvadiyam na vindanti devaah shiva varalakshmi namo so जय जै जनका